मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं सिक्स् चन्द्रदर्शनदोषहरणचरितवर्णनम् श्रीगणेशाय नमः दशरथ उवाच अङ्गारकयुधास्वामिन्कथं श्रेष्ठा बभूवसा तन्मे ब्रूहि विशेषेण संशयोऽत्र महांश्च वसिष्ठ उवाच भरद्वाजात् समुत्पन्नपृथिव्याम् भौमो महामधिः गणाम् त्वेदिमन्त्रेण पूजयामास विघ्नवं तताप स तपोरम्यम् देवं गजाननं पारिनेराच्च नगरात् पश्चिमे वनसंस्थितः शतवर्षैर्गणाध्यक्षप्रसन्नस्तं ययौ नृप वरं ब्रूहि महाभाग भूमिपुत्रेदि सोऽब्रवीद तदो भौमो गणाधीशम् पूजयन्भक्रिभावतः स्तुत्वा तं स जगादेदि वरं सर्वसुखप्रदं नरदेहेन युक्तोऽहं तथापि गणनायक इच्छामि चामृदं पादुं ग्रहं मां कुरुमानद तव भक्त्यकनिलयं नाम्नां मङ्गलसंज्ञकं ऋणहर्तारमेवं मां प्रभो कुरुधनप्रदं माककृष्णचदुर्ध्यां यद्दर्शनं ते मया कृतं मया युक्ता ततो देवी महापुण्यप्रदास्तु तथेधि गणनाधेन कृतं सर्वं नराधिप अदोङ्कारयुता पुण्या चतुर्थी मुख्यतां गता अधुना चेदिहासं ते कथयामि विशेषतः भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यो निशाकरः तत्रते कारणं सर्वं कथयामि सविस्तरम् येन दोषविहीनस्त्वं गणेशं भजसे नृप एकदा देवसंयुक्तायर्मुनिभिश्चैव निश्चितं गणेशांश समुद्भूताः पञ्चदेवानसंशयः ते गणेशस्वरूपाद्वै कदा भिन्ना भवन्ति न तेषां स्मरणमात्रेण सन्तुष्टो गणनायकः भविष्यदि न सन्देहस्तस्मादादौ मुनीश्वराः शिवादीन् पूजयत च तेन सिद्धिमवाप्स्यथ येवं ज्ञानबलेनाज्ञायि कृतं देवैः सहर्षिभिः पञ्चभिर्विष्णुमुख्यैस्तत्तथेदि दे प्रतिपादितम् तदस्सर्वे मुनिगणाश्चक्रुस्ते तादृशीं क्रियां तया सिद्धिविहीनास्ते भ्रान्तास्सर्वे बभूवीरे समागदा देवगणैर्ब्रह्माणं तुष्टुवुर्नृप वृत्तान्तं कथयामासु सोऽपि चिन्तातुरोभवद सस्मारशिवमुख्यांश्च ब्रह्माणं ते समाययुः विष्णुः शिवो यमाशकृस्तेऽपि श्रुत्वा सुविस्मिताः एतस्मिन्नन्तरे तत्र शब्दः सर्वभयङ्करः बभूवतीव्रकोषेण युक्तः प्रलयसूचकः शब्दं श्रुत्वा भयोद्विग्न बभूवुः शम्भुमुख्यकाः ततोकस्मान्महाभीमपुरुषः प्रकटो भवत विकरालं च दं दृष्ट्वा मुमूर्च्छुः शङ्करादयः मुनयो देवधाकेपि केऽपि पलायन्त च मूर्च्छिताः मुहूर्तमात्रकाले वै गते ब्रह्मादयः सुराः सावधानाबभूवुस्तं ददृश्युपुरतस्थितं तदोधिभयसंयुक्तास्तुष्टुवोर्गणनायकं ज्ञात्वा कृधिमहद्रूपं गजवक्त्रादिचिह्निदं ब्रह्माद्या ऊचुः नमस्ते गणनाधाय विघ्नानां पदये नमः अनाधानां सुनाधाय नमो विघ्ननिवारिणे भक्तेभ्यः सर्वदात्रे ते निराकाराय साक्षिणे अमेयाय प्रतर्क्याय हैरम्भाय नमो नमः गजाननाय देवाय शूर्पकर्णाय ते दे नमः महोदराय सर्वेषामादिपूज्याय वै नमः सर्वादये महादात्रे सर्वपूज्याय वै नमः सर्वभावस्थितायैव डुण्डिराजाय ते नमः स्वानन्दवासिनेतुभ्यं योगशान्तिमयाय च योगिभ्यो योगदात्रे वै योगानां पदये नमः सृष्टिकर्त्रे च पात्रे ते सृष्टिकर्त्रे नमो नमः गणेशाय गुणानां वै नमो नमः आत्मनेनात्मने चैव कारणानाम् प्रकाशिने ब्रह्मेशाय सदानाथ देवपालकरूपिणे निवारय महाविघ्नम् सहसा समुपस्थितम् ग्रसिष्यदि न चेदण्डमस्मान्वै नात्र संशयः त्वदीयपादपद्मस्य वयम् दासागजानन मरिष्यामो यथानाथ यशस्तवगतं तदा अधुना रक्षदेवेश न वयं द्रष्टुमुग्रकं क्षमागच्छन्ति नः प्राणा रक्षपिघ्नेश रक्ष भोः एवं संस्तुवदां तेषां पुरसोऽपि महापुमान् गणेशाकाररूपेण बभूव नृपसत्तम ततस्ते तं मासुरादराद। पूजयामासुरादरादमनसिं स्वसुधां तस्मै दधुस्सर्वे शिवादयः सरस्वतीं ददौ ब्रह्मा विष्णुपुष्टिं च मानसीं योगिनीं शङ्करश्चैव मोहिनीं जगदम्बिका सञ्जीविनीं ददौ तस्मै भानुस्सर्वप्रियङ्करः एवं सम्पूज्य विघ्नेशम् प्रणतास्ते महीपदे उवाच तान् च उद्दाप्य विघ्नेशो भक्तिभावदः विष्णुमुख्यान महेशांश्च मेघगम्भीरनिस्वनः श्रीगणेश उवाच शम्भुमुख्या शृणुत च देवेन्द्रमुनिमुख्यः मदीयांशा भवन्तोऽपि गर्वं मा कुरुत चराचरं मदीयांशं मध्रहितं न किञ्चन तेभ्य सिद्धिप्रधानार्थं देहधारी भवाम्यहं यदि ज्ञानेन ना मां पूजये तृणरूपकं तेन अकं किं महादेव पूजितो वदत तत्रांशो वर्तते किञ्चिन्मदीयस्तत्समाच मे तृप्तिर्जादा न सन्देहपूर्णस्तृप्तो भवामि न तथा विप्रै कलांशाः पूजिता यदि कलांशरूपा मे जादा गुणात्मिका ब्रह्माण्डे पूजिते पूर्णे न तृप्तोऽहं भवामि च अनन्तानि मदीयेषु ब्रह्माण्डानि स्वलो मसु गजवक्त्रादिचिह्नेन चिह्नितोकं महेश्वरः जगद्ब्रह्म मयस्तत्र तिष्ठामि योगशान्तितः तस्य पूजनमात्रेण जगद्ब्रह्मसुपूजितम् अहं तयोश्च योगे वै मां त्यक्त्वा ज्ञानमोहेन मोहिता मुनिदेवताः भवता पूजनं चक्रु सर्वादौ विघ्नसंयुताः तत्रापि मदसंयुक्ता भवन्तस्तादृशात्मकाः सिद्धिहीनास्ततो जादाः पुनर्मा कुरु दत्विदम् पूर्वस्मिंश्च भवद्भिर्वै सेवितो भक्रिसंयुतैः अधः सहामि देवेश दत्तं वो दर्शनं मया कलांशमात्रेण यदि सन्तुष्टोऽहं भवामि चेद् तदा देहधरकस्मास्थास्यामि वदत प्रियाः यवमुक्त्वा गणागीशो विररामहीपदे ते भिप्रणम्य विघ्नेशं स्वदोषं प्रक्षमापयन् यतस्मिन्नन्तरे तत्र चन्द्रशङ्करभालकः जहास विवृतैर्दन्तैर्गणेशं रूपगर्विदः उवाच मोहितोत्यन्तं प्रणम्य गणनायकं गजवक्त्रयुदं रूपं किं धृतं विकटं प्रभो पुनः पुनरुवाचे तं वाक्यं हास्यपरायणः हा। ततस्थं कुपितो देवः शशापशशदाञ्छनं ये त्वां विलोकयन् देवै चन्द्र ते पापिनः सदा भवन्तु विघ्नसंयुक्ता मद्वाक्यान्नात्र संशयः एवमुक्त्वान्तर्दधेसौ गणेशो ब्रह्मनायकः भार्याभिः सहितो भूपचन्द्रश्च मलिनो भवद अहङ्कारविहीनास्ते जादा शम्भुवादयः सुराः तदारभ्य महाभाग महाभागाणपत्या विशेषतः वेदज्ञाहङ्कृधिपूर्णा ब्रह्मणो हृदि संस्थिता तया मदयुदो ब्रह्मा भवत्येवं पुनः पुनः सरस्वती सा दत्ता वै गणेशाय महात्मने तया युक्तसदारे मे ब्रह्मणो हृदि विघ्नभः हृदिष्टिते गणेशेश कथमोहयुधो भवेद सदा तं भजते भक्त्या स्वभावतः। सर्वपोषणदा तद्वद्विष्णोर्हृदि समास्थिता तत्सामर्थ्यविमोहेन गर्वं गच्छति केशवः तां दधौ विघ्नराजाय पुष्टिं विश्वस्य पोषिणीं तया युक्तो गणेशानो रेमे विष्णोत्सदा हृदि सोऽपि तं भजते नित्यं गाणपत्यविचारवित हृदिस्थे स कथं मोहं प्राप्नोति नृपविघ्नपि योगेन मोहहीनत्वं सदा शम्भोर्हृदि प्रभो तेनाहङ्कारभावेन मन्यते किं न शङ्करः तामेव योगिनीं देवीं हृदिस्थां प्रददौ शिवः गणेशस्तुतया युक्तो रेमेशम्भोर्हृदिस्थिदः गणेशे हृदि संस्थे स मोहं नैव प्रपद्यते सदा गणेशको भूत्वा भजते गणनायकं वृष्ट्यादानप्रदाने वै करोदि स दिवाकरः सर्वेषाम् जीवनम् तेन धृतम् कर्ममयं नृप तदेव हृदयेतस्य वर्ततेऽहम् स्वभावदः ताम् सञ्जीवनिकां सूर्यो ददौ विघ्नेश्वराय च तया युक्तो गणाधीशः सदा हृदि भानोस्ते भानोस्तेनरविस्त स भजते नन्यचेतसा शक्तिर्हृदयगां देवीं मोहिनीं सर्वमोहिनीं ददौ विघ्नेश्वरायैव शक्तिभावसमन्वितां तया युक्तो गणेशानस्तस्या हृदि विशेषतः तेन खेलदि सा देवी भजते गणनायकम् हंकार निर्मुक्ता देंद्रते बभूवि गाणपत्य प्रिया जाता भजंदे विघ्ननायक चित्ते चिंतामणिस्थिवा प्रकृत खेलदि प्रभु मिथ्याहकारेन बंधन प्रतिप्य से कर्तायिदेव गणेशो नात्र संशय हृदस्थम तम समर्प्य स्वात्म सुखिनोभव मुद्गल उवाच हृत्वा दशरथो राज जगाद मुन सम चंद्र से का गेर्जा वद महामुने वसिष्ठ उवाच गणेशशापसंयुक्तश्चन्द्रस्स स्वगृहे गतः एकान्ते दुःखसंयुक्तो विचारमकरोद्धृति सम्प्रज्ञातस्वरूपश्च देहो गणपदे स्मृतः असम्प्रज्ञादरूपं वै शिरस्तस्य महात्मनः तयोर योगे तयोर्योगे गणेशोऽयं भक्तानुग्रहकारणादेवयी स्वयं साक्षात् बभूवात्र न संशयः वेदेषु कथितं ते यद्रूपं परमयोगदं तन्न ज्ञादं देव मोहे नैव गजानन अपराधं दयासिन्धो क्षमत्वं चित्तगम् प्रभो एवं क्षमाप्य विघ्नेशं ध्यात्वा लीनो बभूवः गङ्गातीरे समागम्य तदाप तप उत्तमम् अष्टादशाक्षरेणैव तोषयामास विघ्नपम् चन्द्रे लीने जगत्सर्वम् दुःखयुक्तम् बभूवः सूर्यस्य तेजसादग्धम् रसहीनं चराचरं तदो देवगणै सर्वैर्भयभीदैः समन्तदः शम्भुविष्णुमुखास्तत्र तपस्ते पुःसहेश्वराः षडक्षरविधानेन ध्यात्वा हृदि गजाननं भक्ति युक्ता नृपश्रेष्ठतोषयामासुरादराद वर्षाणां शतके तत्र गदे चन्द्रं गणाधिपः आय यौवरदानार्थं तपो बद्धो नृपोत्तम स्पर्षेणैकेन देवेशाञयौ विघ्नाधिपो विभुः समकाले च देवेश्याश्चन्द्रस्तं तुष्टुवुर्विभुम् अथर्वशिरः साढुण्ढिं तोषयामासुरादराद सन्तुष्टस्तानुवाचेदं गणेशो ब्रह्मनायकः श्रीगणेश उवाच वरं वृणुदेवे सन्तुष्टोऽहं ददामि ददामितं यं यम यमिच्छदत् तं तं वै सफलं भक् करोम्यहं गणेशवचनं श्रुत्वा देवास्तं प्रणिपद्य कृत्वा करपुडं सर्वे जगुः परमहर्षिताः देवाऊचुः यदि प्रसन्नभावेन वरदोसि गजानन तदा चन्द्रं सुनिर्दोषं कुरुनाथ नमोऽस्तु ते स तानुवाजसर्वात्मा भक्त्या सन्दोषिदप्रभुः भाद्रशुक्लचदुर्ध्यां वै न द्रष्टव्यः हास्यं कृतं मदीयं वै तद्दिने तेन दोषयुक्तो दो विधुस्तस्मान् नान्यधामे मे वजो भवेद ततोदिहर्षिदा देवास्तथेधि दे प्रतिपाद्यते दे। ययुश्चन्द्रं तु सन्द्रष्टुं गणेश्येन्दर्हिते नृप चन्द्रो गणपतिं दृष्ट्वा ननाम दण्डवत्क्षितौ पूजयामास तं तुष्टसताजलि चंद्र उवाच नमस्ते विघ्नपालाय गणेशा परात्म ब्रह्मेशा स्वभक्भ्यो ब्रह्म भूय प्रदाते अनाम सर्वादीपूज्यामो नम शिवात्मजाय देवाय विष्णुपुत्राय ते दे नमः ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः सर्वेशाय परेशाय परात्परतराय ते सिद्धिबुद्धिपदेतुभ्यं सिद्धि बुद्धिप्रचालक हेरम्बाय महेशानां महेशाय नमो नमः स्रष्टे पात्रे च संहर्त्रे परमात्मस्वरूपिणे सर्वेभ्यो वरदात्रे देनादिसिद्धाय भो नमः क्षमापराधं देवेश त्वन्मायामोहधारिणः शरणं ते प्रसन्नस्य रक्ष महदो भयाद मां दृष्ट्वा हर्षसम्पन्ना अभवन् देवतादयः अधुना निरीक्ष्यैव दोषयुक्ता भयातुराः अदो मां नैव पश्यन्ति पापिनां पापरूपिणं निर्दोषं कुरु विघ्नेश करुणालयते नमः सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण तेनाहं कृतकृत्यश्च भवेयं योगिसम्मदः ततोधिभक्तिसंयुक्तं नृत्यन्तं देवसन्निधौ रोमाञ्चाश्रुसमायुक्तं दृष्ट्वा डुण्डिर्जगादतं श्रीगणेश उवाच त्वया कृतमिदं स्तोत्रम् मम प्रीतिविवर्धनम् अपराधाननन्तांश्च सहेतेनेन निश्चितं सर्वसिद्धिप्रदं पूर्णं भविष्यदि विशेषतः पठतां शृण्वतां चैव नाना सुखकारकं भवेद यथा पूर्वं स्थितश्चन्द्रतादृशो भवनित्यदा यस्मिन् दिने कृतं हास्यं तत्र दोषयुतो भवेः ललाटे भूषणं मेत्वं त्वं भव सेवापरायणः चतुर्थ्यां कृष्णपक्षस्य व्रते पूजनं भवेद, मां पूजयित्वा तारेष यस्ते प्रदास्यति तस्य सिद्धिर्भवेत्पूर्णा व्रतजान्यधा क्वचिद द्वितीयायां च साध्यान्ने त्वया प्राप्तोऽहमादराद अधशुक्लद्वितीयायां नमस्यो मानवैर्भव द्वितीयायां प्रयत्नेन त्वां नमस्यन्ति मानवाः मासघं दुःखमुत्सृज्य क्वचित् नान्यधा, नान्यथा एवमुक्त्वार्दधेस्सौ गणेशश्चन्द्रपूजितः तस्मिन्काले च देवेश देवास्तत्र चन्द्रस्तां स्थैः समन्वितः गणेशम् ब्राह्मणैः सार्धम् संस्थाप्या पूजयत्प्रभुम् गणेशबालसंस्थानम् प्राप्तम् चन्द्रेण यत्र वै बालचन्द्रम् गणेशानं वदन्ति तत्र संस्थितम् देहै सम्पूजितस्तत्र ब्राह्मणैर्गणनायकः प्रगृह्य चन्द्रं निर्दोषं तदस्वर्गं ययुः सुराः चन्द्रस्वांशस्वरूपेण स्वर्गे तिष्ठति भूमिप पूर्णरूपेण विघ्नेशं सेवते नित्यमादराद गङ्गातीरे निवासं स चकारात्रिसमुद्भवः विधुश्च बालचन्द्रं तम् सेवते भक्तितत्परः अथ कस्मिंश्च समये देवै सम्प्रार्थितो हरिः यादवेषु समुत्पन्नो वासुदेवो बभूवः अज्ञानेन विधोस्तेन दर्शनं प्रकृतं नृप भाद्र तु स दोष स बभूवः अन्तर्ज्ञानं गदं तस्य नरतुल्यो बभूवसः तथापि विघ्नसंयुक्तो हरितच्छृणुभूमिप सत्राजिन्नामराजर्षिर्यादवेषु बभूव वै तेन सूर्यतपस्तप्तं दारुणं शतवत्सरं सूर्येण स्वकले संस्तो मणिर्धत्तस्यमन्तकः सत्राजिते स तद्रत्नं गले भक्त्या बबन्धः नित्यं सुवर्णभाराणामष्टौ स्रवदि सन्मणिः सूर्यतेजःसमानश्चाशोभयद्यनुनन्दनं द्वारकायां स्थितं तं स सूर्यभक्तिपरायणम् शुचि शुचिभावेन रत्नं सोऽपूजयतान्नरन्तरम् तदो बहुगदे काले कृष्णो दोषयुधो भवद तस्य बुद्धिः समुत्पन्नामणे सङ्ग्रहणे नृप सभायां संस्थितः कृष्णस् सत्राजितमाह्वयद आगतं तमुवाच संविनयेन समन्वितः श्रीकृष्ण उवाच उग्रसेनश्च सर्वेषां यादवानां महामदे राजास्माभिः कृतस्तं ते यादवा पूजयन्ति भोः अस्माभिर्दिग्जये प्राप्तमुग्रसेनाय यादव दत्तम् श्रेष्ठं तदा तं मणिं देहिस्यमन्तकं सुवर्णं मणिसम्भोदं गृहाणत्वं दुनित्यदा शोभार्थम् कण्ठगन्ताद मणिं कुरु नृपस्य तं एवमुक्तः सत्राजेत्तमुवाच समन्युना प्रसेनायमया दत्तः समे नैव ददाधितं एवमुक्त्वा गृहं गत्वा स्वानुजाय ददौह्णिं प्रसेनायस्वृत्तान्तं कथयामासविस्तराद ततः कदाचित् कृष्णेन सहिता यदुनन्दनाः मृगयार्थं वने राजन् जग्मुर्हर्षसमन्विताः तत्राशुचिस्वभावेन प्रसेनस्तं मणिं परं बबन्धस्वगढेसोऽपि तैः सह प्रययौवनम् अशुचित्वस्य दोषेण सिंहकस्थं प्रसेनकं साश्वम् हक्त्वा गृह्यमणिं ययौ स्थानं स्वकं महान् तदस्तं जाम्बवान् हत्वा गृह्य सिंहं मणिं हस्ते तं ददौ स महाबलः तव भर्ता सुधेयो वै भविष्यदि मणिं परं तस्मै दास्यामि भावेन त्वदीयोऽयं मणिस्मृदः सा याह्ने यादवः सर्वे आगदा स्वस्वमन्दिरे प्रसेन विहीनास्ते शत्राजित्क्रोधमादधे अहो कृष्णेन मेभ्रादा संह्रदो नात्र संशयः मणिलोभवशेनापि पापीना पापचेदशा तदो लोकापुरे संस्थाः सत्यमानयं स्तुते उग्रः सेनादयः सर्वे कृष्णं न्यभर्त्सयन् नृप तध कृष्णश्च दुःखार्थः नरवन्न बुभोधाभि स वसुदेवजः। ततोदिदुःखितो भूत्वा विचारं देवकीसुतः चकारान्तरजज्ञानं क्व गदं मम साम्प्रतं नरधुल्यकदं जातः कारणं नात्र देहत्यागं करिष्यामि वृथा लाञ्छनकारणाद् तदसभां सभां समागम्या गृह्य यादवमुख्यगान् वनं ह्ययौ प्रसेनस्य निश्चयार्थं महाद्युदिः पादमार्गं प्रसेनस्य ते सङ्गृह्य महा वने गदास्तत्र मृदं शाश्वं प्रसेनं ददृश्युर्नराः सिंहेन संहदं दृष्ट्वा मणिहीनं तु यादवाः पुरतस्थेययुः सर्वे सिंहमार्गप्रधारिणः तदो महावने सिंहमृक्षेण प्रहदं पुनः ददृशूर्नमणिं तत्र लेभिरे भयसङ्कुलाः वृक्षपादं ताधागृह्य ययुर्यादवमुख्यकाः महावने विलेखोरे गदमृक्षमलोकयन् ततस्तांस्तत्र संस्थाप्य कृष्णपरपुरञ्जयः विलेसम्प्रविवेशाद् लाञ्छनस्यापनोदनाद् विले योजनमात्रम् स गत्वा तत्र ददर्शः प्रकाशयुक्तम् संस्थानम् शोभमानम् सुविस्तरम् दोलायाम् संस्थितम् वीक्ष्य मणिम् कृष्णो जहर्ष तत्र सुप्तं शिशुं दृष्ट्वा शनैरागात्स यादवः तदो कस्मा बहिः पुत्री समाययौ अपूर्वं पुरुषं दृष्ट्वा शुक्रोश भयसङ्घुलात् तदो जाम्बवदराजन् श्रुतं पुत्र्याः प्ररोदनं आयय्यौ च शतं दृष्ट्वा युयुधे विष्णुना स्वयं गास्तयोरेकविंशति खस्त्रास्तु प्रयुध्यतोः यादवा जग्मिरे सर्वे बहिष्ठा अष्टमे दिने द्वारकायां स्ववृत्तांतं कथयन्ति स्म विह्वलाः दिवसाः सप्त तत्रैव तथापि विवरात्कृष्णो न बहिश्च समागतः मृदो वा जीवितो वा स ज्ञायते किं न यादवः वसुदेवादय श्रुत्वा शस्त्रीका नृपदुःखिताः उग्रसेनादयः सर्वे रुरुदुर्दुःखपर्षिताः परेऽस्माकं विशेषेण शत्रवसंस्थिता अहो जरासन्तादयश्चान्ये किं भविष्यदि यादवाः हीन्हाकृष्णेन सञ्जाता अधुना नात्र संशयः द्विषद्भिः संहदाः सर्वे मरिष्यामः स पक्षकाः रामेण ते सर्वे सान्त्विदा बहुलोक्त्रिभिः निःस्वस्य संस्थिताभूव दुःखयुक्ता भयातुराः सत्राजिदम् निनुन्धुस्ते व्यर्थलाञ्छनदं तदा सोऽपि दुःखसमायुक्तो बभूव भयसङ्कुलः अथ तं जाम्बवान् कृष्णमुवाच घननिस्वनः कस्त्वं वीरमहातेजा योधयन्नसि मां वद तदस्थं प्रत्युवाचेदं कृष्णो वचनमुत्तमं यदु वंशभवं कृष्णं माम् जानीहि महामदे श्रुत्वा खेदसमायुक्तो जाम्भवांस्तं ननाम वै रामेणोक्तं वयोरम्यं स त्वं विष्णुः दासस्त्वदीयो वै क्षमस्व करुणानिधे अज्ञानाच्छक्रिगर्भेणा पराधं युद्धजं च मे स्तुधसम्पूजितस्तेन कृष्णो वृत्तान्तमादराद् अगदत्तं तदश्रुत्वा कन्यायुक्तं मणिं ददौ गृहीत्वा शस्त्रियं कृष्णो द्वारकायां समागतः आगतं कृष्णमालोक्य हर्षयुक्ता बभूविरे यादवैष्टतथ कृष्णः समान्नाय्य महामणिं सत्राजिदे दधौ तत्र सर्वेषां पश्यतां नृप सत्राजिन्मनसात्यन्तं निन्दयामास तां तनुं भयभीदः स विरोधेन महायशाः सत्यभामां ददौ तस्मै मणियुक्तां महात्मने कृष्णायस उवाचेदं स्वशूरो विनयान्विदः सूर्यभक्तियुतस्त्वं वै मणिं रक्ष महामदे दौहित्रास्ते भविष्यन्ति ग्रहीष्यन्ति मणिं च तथेदि यादवेनैव कृतं सत्राजिता नृप यदस्मिन्नंदरे तत्र वृत्तान्तो यादवैषुतः लाक्षागृहेषु संदग्धा कुन्द्या युक्ताश्च पाण्डवाः पुरोचनेन तत् ज्ञात्वा रुरुदुर्यादवा बहु रामेण हस्तिना भुर्यां कृष्णः सद्यो जगामः धृतराष्ट्रादिभिः सोऽपि रुरोद शोकसङ्कुलः सदधन्व ततो क्रूरकृतवर्मा च यादवः मिलिता क्रोधसंयुक्ता विचारं चक्रुरादराद तत्राजिदा वयम् सर्वे कन्यार्थं समृधा पुरा अस्मान् सन्त्यज्य कृष्णाय ददौ कन्याम् सुरूपिणीम् कृष्णपाण्डवशोकार्थो भवत्तत्रैव संस्थितः स रामो निश्यधकार्यम् कर्तव्यम् ततृभिः हत्वा तत्राजितम् सुप्तम् मणिर्ग्राह्यो न संशयः एवम् निश्चित्य रात्रौ तम् शदधन्वा सहत्वावै सत्राजितं सहत्वा वै मणि जग्राह दारुणः संस्थाप्य तैलद्रोण्यां तम् कृष्णम् सत्याययो ततः श्वशुरम् स हतम् श्रुत्वा रामेण सहसागतम् कृष्णम् ज्ञात्वा शदधन्वा क्रूरमाययौ अक्रूरेण समात्य कृतकृतवर्मणमाययौ तेनापि न धृतपक्षः पुनः सो क्रूरमाययौ मणिं तत्रैव निक्षिप्य पपालभयसङ्कुलः सदयोजनगाश्विन्यां समारुह्य नृपात्मज पलाय मानं विज्ञाय कृष्णसङ्कर्षणान्विदः रथमारुह्य वेगेन तमनु प्रययौ तदा योजनानां शतं गत्वा ममारः पुरोश्विनी शतधन्वा भयैर्युक्तः पलायद पदातदः पदातिनं शतं ज्ञात्वा कृष्णो धावत्सुसत्वरः पदातिर्बलभद्रे शरथं त्यक्त्वा महाद्युधिः तदश्चक्रेण कृष्णेन हतस्तत्र पपातः शतधन्वातेन बलभद्रमुवाचः सदधन्वा हदो स तदो रोहिणीसुतः मणिस्त्वया सुसंगुप्तो मिथ्या वाक्त्वं हा खल अग्रजाय प्रदातव्यस्तदर्थं मणिरादराद कृतं त्वया महालोभिन्कर्म कर्मसाधु जुगुप्सितं तदस्तं विनयेनैव सान्द्वयामः स केशवः द्विजदेवगवां ते मे शपथो न कृदं मया तं तिरस्कृत्य वेगेन त्यक्त्वा रामो जगामः विदर्भराजनीतिज्ञं स्वमित्रं नृपतिं तदा तदोधिदुःखसंयुक्तकृष्णः परमदारुणं रुरोदबलभद्रं स स्मृत्वा स्मृत्वा विशेषतः ज्ञानदृष्ट्या स कृष्णेन मणिर्नाप्तो महीपदे तदोदिदुःखितो भूत्वा रुरोद च पुनः पुनः अहो ज्ञानं मदीयं यद्गतं कुत्र विशेषतः नरतुल्यकृधः केन भिङ्मे जीवितकं किल रथसंस्थः समायादोद्वारकायां महायशः लोकवृत्तान्तमुग्रं स कथयामास विस्तराद तदो ततो यादवमुख्यै स भर्सितोदिविशेषदः कृष्णसत्राधिदः कर्म चकारोत्तरकं नृप देशे देशे नृपाद्याश्च जना कृष्णं विशेषदः निनिन्दुकर्म कृष्णेन किं कृतं दुष्टबुद्धिना समर्धं बलभद्रं योत्यज्येष्ठं सुदुर्मदिः मणिलोभी महाभाविश्वास्यो नैव के नचिद द्वारकायां जनाः सर्वे तं कृष्णं न प्रमेनिरे त्यक्तः सर्वैस्तथा कृष्णशुचोच परमव्यधः अस्तित्वचासमायुक्तं सदा स्वगृहसंस्थितम् नारदस्तं समालोच्याययौ दृष्ट्वा सुविस्मितः तं प्रणम्य महात्मानं कृष्णपरमदुःखिदः उवाच भावभक्त्या वै कृताञ्जलिपुटः शनैः श्रीकृष्ण उवाच सर्वैः सन्ध्याजिदो दुःखी गृहे नित्यं वसाम्यहं तत्र ते दर्शनं स्वामिन्नभवद्भाग्ययोगदः तदस्तम् नारदप्राह किमर्थम् त्यज्य सेवद एवम् पृष्ठः पुनः प्राह वृत्तान्तम् सर्वमञ्चस श्रुत्वा वृत्तान्तमुग्रम् नारदः देहत्यागे समुद्योगं कुर्वन्तम् तमुवाचः नारद उवाच भाद्रशुक्लचातुर्ध्यां च त्वया चन्द्रो विलोकितः सप्तोऽत्सौ विघ्नराजेन तेन सन् दुःखितो भवान् देहत्यागं महाबुद्धे मा कुरुष्व विशेषतः गणेशं भज भावेन सङ्गष्ठीव्रतसंयुधं मिद्यापवादशून्यत्वं भविष्यसि न च संज्ञानश्च समर्थेशस्तस्मात् तं शरणं व्रज एवमुक्त्वा महायोगि नारदप्रययौ ततः गणेशगानसंयुक्तो वीणावादनलालसः तद कृष्णप्रहर्षेण युक्तो विघ्नेशमादराद अभज ध्यानमार्गज्ञो ध्यानेनोग्रेणभूमिव काक्षरेण मन्द्रेण पूजयन्नित्यमेव तम् व्रतम् चकारस ततः सङ्गष्टी सञ्ज्ञमुत्तमम् रात्रावेकान्तः संस्तम् तम् ध्याननिष्टम् जनार्दनम् निश्चलम् गणराजः ययौ भक्तम् सुखप्रदः बोधयामास कृष्णं कृष्णम् गणेशो ब्रह्मनायकः तमुद्धाय ननामासौ पूजयामास चादराद पुनः प्रणम्यतुष्टाव विघ्नेशं सामगेन सह स्तोत्रेणाष्टकसंज्ञेन नाम्ना तं प्रणनर्थः सरोमाञ्जं गणेशान् दृष्ट्वा जगादः वरं वरय मत्तस्त्वं दास्यामि हृदि गणेशवचनं श्रुत्वा तं जगादमहायशाः कृष्णो भक्त्या समायुक्तो वचनं खेदसंयुधः श्रीकृष्ण उवाच यदि तुष्टोऽसि विग्नेशा वरदोसि विशेषदः तदा दे भक्तिमुग्रां मे देहि ह्यव्यभिचारिणीं भाद्रशुक्लचतुर्ध्यां ये चन्द्रम् पश्यति विघ्नप ते शापदुःखहीना वै भवन्तु कृपया चरे अहम् चासन्नमरणजनवज्ञानवर्जितः प्रकृतोऽन्यस्य का वार्ता प्रार्थयामि तदप्रभो जगादगणनाधः स तदस्तम् भक्तिमोहिदः मम भक्तिर्दृढा कृष्ण भविष्यदि च शमन्दकस्य महात्म्यं त्वदीयं लाञ्छनप्रदं वरदानं च यशृणो धिजनार्दनं पठेतु भावयुक्तश्चेन्मां धृत्वा हृदये हरे स एव दोषसंहीनो भवत्वत्र न संशयः यवमुक्त्वा गणेशानकृष्णं भक्तिपरायणम् अन्तर्धानं कृष्णस्तत्र समास्थितः सम्पूर्णं जागरं कृत्वा पञ्चम्यां नियधप्रभुः पूजयित्वा गणेशानं ददौ दानं विशेषदः गणेशकृपया तस्यान्तर्ज्ञानं सम्बभूवः ग्रहणं च मणिस्तेन ज्ञादमक्रूरकारिधं सभायां समागम्याक्रूरं तत्रा जुहावच तं प्रणम्य महाभागमुवाज हास्यसंयुधः मणिश्च तादसन्ध्यक्तो गेहे ते शदधन्वना बलभद्रार्द्रमद्यत्वं मणिं दर्शयमानद तदो क्रूरेण चानीदो मणिस्तत्र सुसंसदि दृष्ट्वाऽग्रसेन प्रशशं प्रशशंसृर्जनार्दनम् अक्रूरश्च विदर्भम् तम् गत्वा हलधरम् प्रभुम् मणिम् गत्वा समानीय सभायां संस्थितो भवद समागत महावीरमनमत्केशव पुनः सर्वे कर्षयुधा द्वारका वासिनस्तदः निर्दोषम् वसुदेवम् ते मानया राजान सुहृद सर्वे नानादेशनिवासिनः सर्वेषाम् हृदि संस्तोऽयम् गणेशो बुद्धिनायकः तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम् अधो भाद्रचदुभ्यां वै न द्रष्टव्यकदाचन चन्द्रकदाचिद् दिदं श्रोतव्यमादरात् तेन दोषविहीनश्च जायदे नात्र अन्यधा अन्यथा भ्रष्टभावेन नारकीस्स नरो भवेद् शमन्तकमणेश्चित्रं चरितं कथितं परं चन्द्रदर्शनजं दोषं हरदिश्रवणेन च ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रशुक्लचतुर्थी चन्द्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः ओ